अथर्वेदे सप्तमाष्टके सप्तमोऽध्यायः ओ निवर्तधनुगाधास्मान्सिषक्तरेवतीः अग्नीशो मा पुनर्वसो अस्मेधा आनयतम् रयिम् पुनरेनानिवर्तय पुनरेनान्याकुरु इन्द्र एना नियच्छद्वग्निरे एना उपायतु पुनरेता निवर्तन्तामस्मिन् पुष्यन्तु गोपतौ इहैवाग्ने निधा आरये अतिष्ठतु या रयिः यन्नियानन्ययनम् सञ्ज्ञानम् यत्परायणम् आवर्तनम् निवर्तनय्यो गोपा अपि कम्भुगे य उदानडव्ययनय्य उदानत्परायणम् निवर्तनमपि गोपा निवर्तताम् आनिवर्त निवर्तय पुनर्न इन्द्रगादेः जीवाभिर्भुनजामहै परिगो विश्वतो दध ऊर्जा घृते न पयसा ये देवाः के च यज्ञियास्ते रय्या संसृजन्तु नः आनिवर्तनवर्तय निनिवर्तनवर्तय भूम्याश्च तस्रः प्रतिशस्ताभ्य एनानिवर्तय भद्रम् नो अपि वातयमनाः अग्निमीळे भुजाञ्यविष्ठम् शासामित्रम् दुर्धरीतुम् यस्य धर्मन् स्वा अरेणीः स पर्यन्ति मातुरोधाः यमासा कृपणीलम् भासा केतुम् वर्धयन्ति भ्राजते श्रेणिदन्न वर्यो विशातुरेतिप्रयदा नर्दिवो अन्तान् कपिरभ्रन्दि्यानः दुषद्धव्यामानुषस्योर्ध्वस्तस्था वृद्ध्वा आ यज्ञेन्दन् सद्मपुर एति स हि क्षेमो हविर्यज्ञः सृष्टि तस्य कातुरे एति अग्निम् देवावाशी ईमन्तम् यद्दासा हन्तुव इषेऽग्निम् पूर्वस्य शेवस्य अद्रे ए स्योनुमायुमा नरो एके चास्मदा विश्वे ते वाम आस्योः कृष्णश्वेतो ओरुषो यामो अस्य ब्रध्नर्जिन उतशो णो यशस्वान हिरण्यरूपम् जनिताय जान एवा अग्ने विमदो मनीषामूर्जो न पादमृतेभिः सदोषाः गिर आवक्षत्सुमतीरियान इषमूर्जम् सुक्षितिम् विश्वमाभाः आग्निन्न स्वक्तिभिरोतारन्तावृणीमहे यज्ञायस्तीर्णवर्षिषे विभोमदेशीलम्बावकशोदिशं विवक्षसे वा मुते स्वाभुवः शुम्भन्त्यश्वराधसः वेऽतित्वामुपसेत देवि भोमदविरग्नाहुतिर्विवक्षसे त्वे धर्माण आसतेः सिञ्चतिरिव कृष्णारूपाण्यर्जुना विभोमदे विश्वा अधिश्रियोऽधिश विवक्षसे यमग्ने मन्यसे रयिम् सहसावन्नमर्त्य तमानो वाचसातयेऽपि भोपदे यज्ञेषु चित्रमापराविवक्षसे अग्निर्जातो अथर्वणाभिदद्विश्वानिकाव्याः भुवद्धूतो विवस्वतो मोपदे प्रियो यमस्य काम्यो विवक्षसे त्वाञ्यज्ञेष्वीलतेऽग्ने प्रयत्यध्वरे ो निकाम्यापि भौमदे विश्वा दधासि विवक्षसे वाञ यज्ञे स्मृत्विदं तारुमग्दे निषे गिरे धृतप्रतीकम् मनुषो विभोमते शुक्रम् चेतिष्ठमक्षभिर्विवक्षसे अज्ञे शुक्रेण शोदिषोरुप्रतयसे बृहत् अभिक्रन्दन् वृषायसेऽपि भौमते गर्भम् दधासि दामिषु गुहः श्रुत इन्द्रः मित्रो न श्रूयते कृषीणाम् वाजः क्षये गुहा आवाचरकृषे गिरा इह श्रुत इन्द्रो अस्मे अद्यस्तवेज्रिशी क्षमः मित्रो न योजनेष्वाजश्चक्रे असाम्या महोयस्पति शवसो असाम्या महो, महो नृस्य भर्ता वज्रस्य कृष्णोः पिता पुत्रमिव प्रियम् जानोऽश्वातस्य धुनीः देवो देवस्य वज्रिवः स्यन्ताः पथाभिरुक्मथा सुजानस्तोष्यध्वनः त्वन्त्याचिद्वा तस्याश्वागा आरुद्रात्मना वहध्यै त्रियोर्देवो न मत्यो यन्तानकिर्विदाय्याः अथध्वन्तोषनाः पृच्छते आजग्मथुः परागाद्दिवश्चग्मश्च मत्यम् आन इन्द्रवृक्षसेऽस्माकम् ब्रह्मोद्यतम् तयाचा महे वः सुष्णञ्यद्धन्नमा आनुषम् अकर्मादस्युरभिनोः अमन्तु रन्यो अमा आनुषः त्वम् तस्या आमित्रहन्वधद्दासस्य दम्भय त्वन्न इन्द्रशोरशोरे एरु तत्त्वोता आसो बर्हणाः पुरुत्रा देविपूर्तयो नवन्तक्षोणयो यथा त्वन्तान्वृत्रहत्ते चोदयो लोङ्कार्पाणेषोरवज्रिवः गुहाय एकवीनाम् विषान्नक्षत्रशवसाम् मक्षोदात इन्द्रदानाप्रस यद्धसुष्णस्य दम्भयो जातम् विश्वम् सजावभिः मा कुध्य इन्द्रशो रवस्वे रस्मे भोवन्नभिष्टयः वयम् वयन्त आसां सुम्नेस्यामवज्रिवः अस्मे तात इन्द्रन्तु सत्याहिंसन्तेरुपस्पृशाः विद्यामया साम्भुजो धे नो नान्नवज्रिवः अहस्ताय तप देवर्थदक्षाश्रीवेद्यानाम् शुष्णम् परिप्रदक्षलिद्विश्वाय वेरिशिष्टसः पिबा पिबेदिन्द्रशो रसोमं मारिषन्यो बसवानवसुः सन्न उतत्रा आयस्वृणतो मघो नो ओ महश्च रायो देवतस्कृधीनः निजा मह इन्द्रम् वज्रदक्षिणम् हरेणाम् रथ्या अम्विव्रतानाम् स्विन्दो ओ मघैर्मघवा आवृत्रभाभुवत् रुभुर्वाज रुभुक्षाः पत्यदेशवो वक्ष्णौ विदासस्य नामधि यदा वज्रम्भिरण्यमिरथा रथम् हरे यमस्य वहतोऽपि सूरिभिः आतिष्ठति मघवासनश्रुत इन्द्रो वाजस्य दीर्घश्रवसरस्वतीः शोचिन्वृष्टिर्योच्छ्या आस्वादताम् इन्द्रश्मश्रोणिहरिताभिप्रश्नुते अववेति सुक्षयम् सुते मधुदिद्यो नोति वातो यथावनम् यो वाचा विवाहाचो वृद्धवातः पुरुसहस्रादि वाचगाना तत्तदितस्य पौंस्यम् गृणीमसि पिते वयस्तीम् वा वृधे शवाः स्तोमन्द्र इन्द्रविमदा अजीजनम् नूर्वम् गुरुतमम् सुदानवे विद्माह्वस्य भोजनमिनस्य यदा पशुन्न गोपाः करामहेनासख्यावियौषस्तव चेन्द्रविमदस्य दर्शेः विद्माहिते प्रमदिन्दे भजामिव तस्मेते ए सन्तु सख्या शिवानि निन्दसोममिमम् चमोऽसुतम् अस्मेरयिन्निधारय वि वो मते सहस्रिणम् पुरोवसो विवक्षसे त्वाय्यज्ञेऽभिरुक्थैरुपहव्येऽभिरीमहे शुचीपते शुचीनाम् विभो मते श्रेष्ठम् नो देहि वार्यम् विवक्षसे यस्पतिर्वार्याणामधि रद्धस्य चोदिता इन्द्रस्तोत्रोणामभिता वि मो मदे द्विशो नः बाह्यम् हसो विवक्षसे युवम् चक्रामायाविना आ समीची निरमन्थतम् मदे न यदीडिता नासत्या निरमन्थतम् विश्वे देवा अग्रवन्त समीच्योर्निष्पतन्त्योः नासत्या ब्रुवन् देवाः पुनरावहतादिति मधुमन्मे परायणम् मधुमत्पुनरायनम् तानो देवा देवतया युवम् मधुमतस्कृतम् भद्रन्नो अपि पादयमनो दक्षमुदक्रतुम् अथा आ ते सख्ये अन्धसोऽ विभोमधेरणङ्गाभो नयमसे विवक्षसेस्पृशस्तः से विश्वे सो मतामसु अथा कामा आ इमे मम विभोम देवि तिष्ठन् देवसूयवो विवक्षसे उतौ रतानि सोमते नामिपाक्या तथा अपि देवसूनवेपि भोमते बिलानोः अभिरिवता विवक्षसे समुप्रयन्ति धीतयः सर्गाः सोमताम् इव कृतम् नः सोम देवसे वि भोमते धारया चमसाम् इव विवक्षसे तपत्ये सो ओमशक्तिरे ोम रक्षसे पुरुत्राभिष्ठितम् जगत् सपाकृणोषि जीवसे विभोमदे विश्वामश्विवक्षसे वरन्नः सोम विश्वतो गोपादाभ्यो भव सेतराजन्नपश्रिधो वि भोमदेमानो दृश्यंस ईशता विवक्षसे तन्नः सोमशुक्रदुर्मयोजारागृहि क्षेत्रवित्तरोमनुषोऽ वोमदे द्रुहो नः बाह्यम् हसो विवक्षसे तन्नो आवृत्रहन् ममेन्द्रस्येन्दो शिवः सखा यत्सींहवन्दे समिचे वि वोमदे युध्यमाना स्तोकसाः अयम् गस पुरो मद इन्द्रस्य वर्धत प्रियः अयम् कक्षेपतो महो विभो मदे वर्धयद्विवक्षसे अयम् विप्रा आयदाशु सेवाजामरः अयम् सप्तभ्यावरम् वि को मदे प्रान्तम् श्रोणञ्च तारि तद्विवक्षसे प्रह्यच्छामनीशास्पार्हायन्ति नियुताः तस्रा निजद्रसः पूषा अविष्णुमाहिनः यस्यत्यन्महित्वम् वाताप्यमयम् जनाः विप्र आपम् सेतिभिश्चिके एतसुष्टुधीनाम् समे एतसुष्टुतीनामिन्दुर्न पूषा वृषाः अभित्सुरः प्रृषायति व्रजन्न आपृषायति चाधवम् प्रत्यर्थिर्यज्ञानामश्वहयोर्था आनाम् ऋषिः सयो मनुरहितो विप्रस्य या वयत्सखः आधीषमाणायाः पतिश्युतायाश्च वासो वायो देहीनामावासाम् सिममृजत् हिनो बाजा आनाम् मतिरिनः पुष्टीनाम् सखाः प्रश्नश्रु हर्यतो दो ओधो अदाभ्यः आते रथस्य पोषन्न जातुरम् मृत्युः विश्वस्यार्थिनः सखा स नोजा पूषा अविष्णुवाहिनः भुवद्वाजानाम् रथ इवन्न शृणबद्धवम् यत्सु रते जलमानायिक्षम् अना आशीर्दाहमस्मिप्रहन्ता सत्यद्भृतम् वृदिनायन्त्यते एवन्तन्वा आशुषुदानान् अमाते तुम्रम् सुतम् पञ्चदशम् नाहन्तम् वे एतजोन् समरणे जघन्वान् यदा वाक्ष्यत्समरणमृगाः पदादिध्य मे वृषभा प्रब्रुवन्ति यदज्ञाः तेषु वृजनेष्वासंविश्वे ए सतो मघवा नोम आसन् जिनामिवेत्क्षेप आसन्तमाभुम् व्रतङ्क्षिणाम् पर्वते पादगृह्या न वा उमाम् वृजने एवारयन्ते न पर्वतासो यदहम् मनस्ये अवस्मनात्कृतुकर्णोऽभयात एवेदनुद्योन्किरणः समेजात् दर्शन्वत्र शुतवान् अनिन्द्रान् बा आहुक्षदशरेव्यमानान् कृषम् आर्येरिसहारमध्योन्मे सुवयोपमृत्युः अपूर्वौ क्षीर्व्यो उवायुरा नदर्शन् पूर्वो अपरोनुदर्शत् वस्ते परितन्न भूतो यो अस्य पारे रजसो विवेशा गावोयवम् प्रयुता अर्यो अक्षन्ता अपश्यन् स गोपा ह वायिर्यो अभितःपतिच्छन्द्रयाते सयद्वयवसादो जनाभय्यवादुर्भज्रे अन्धः अत्रा आयुक्तो वसातारमिच्छा रथो अयुक्भवन्दान पत्रेतुमेवम् से सत्यमुक्तं विपाच्ययचतुष्पात्सम् सृजानि स्त्रीभिल्यो अत्र वृषणम् वृथञ्ज्ञात युद्धो अस्य विभजादि वेदाः यस्याः नक्षादुहिता जात्वा सकस्ताम् विद्वाम् अभिमन्याते अन्धाम् करो मेनिम् रसितम् वृदातेय ऐम् वहा आचेय ऐम् यधियोषा आवर्ययो वधूयोः परिप्रेतापन्यसा वार्येण भद्रावधोर्भवति यत् सुपेशा स्वयम् सा मित्रम् वनुते जने केचित् पत्तो जगारप्रत्यम् च मत्तिशीलष्णाचिरः प्रतिदधौ वरूधम् आशील ऊर्ध्वामुपशिक्षिणा दीन्यम् वृत्तानामन्वेति भूमिम् गृहन्नच्छायो अपलाशो अर्वा आतस्थौ माता विषितो अस्तिगर्भाः अन्यस्या आवत्संरिहते विमायकया आभुवा निरधे धेऽनुरूधाः सप्त वीरासो अधरादुदा आयन्नष्टोत्तरात्तात्समजग्मिरन्ते नवपश्चाता आयन्दस मेकम् कपिलम् समानन्दम् हिन्वन्ति कृतवेपार्याय गर्भम् माता सुरितम् भक्षणास्त्ववेनन्तम् तुषयन्ते विभक्तिवानम् मेषमभजन्त वीरान्युक्ता अक्षा अनुदेव आसन्न दाधनुम् बृहते वप्स्वा अन्तः पवित्रवन्ता चरतः विक्रोशनासो विश्वम् च आयम्बा आधिनेमो ओनहि पक्षदब्धः अयम् मे हे देवः सभिरारदाहतुरन्न इद्बनवत्सर्पिरन्नः अपश्यङ्ग्रामम् वहमानमाराधचक्रया आस्मृतया वक्तमानम् षिकर्यप्रयुगाजनानाम् सद्यशिष्णाप्रमिनानो न वि हेतौ मे गावौ अप्रपरस्य युक्तौ मोरुप्रसेधेर्मुहुरिन्वन्धि आपश्चिदस्य विनशन्त्यर्थम् सूरश्च मर्क उपरो बभूवान् अय वज्रः पुरुधा विवृत्तोपः सूर्यस्य बृहतः पुरीशात् श्रव परो अन्यदस्ति तदौ यथेयतिमाणस्तरन्ति वृक्षे वृक्षे नियता मे मयद्गौस्ततो वयः प्रपदान्पूरुषादाः अथेदम् विश्वम् भुवनम् भयात इन्द्राय सुन्वदृशये च शिक्षत देवानाम् माने एप्रथमा अधिष्ठनि कृन्दत्रा आदेशामुपरा त्रयस्तवन्निवीमनोपाद्बा भू ओकम् वहतः पुरेशम् स्थाते ये जीवातु रुतस्य विद्धिमास्मै तादृगपगूहः समर्ये आविश्वः कृणुते गूहते पुशंसपादुरस्य निर्णिजो नमुच्यते अन्यो अरिरा आजगा जगाममेधः नाजगाम दक्षीयाद्धाना उत सोमम् पपियात् स्वाशितः पुनरस्तञ्जगायात् सरोरुवदृढभस्तिपश्री वर्ष्मन्नस्थो वरि मन्ना पृथिव्याः विश्वेश्वरम् वृजने ऋपामियो मे भुक्षे सुरसोमःते अद्रिणाते मनुजिन इन्द्रतो यान् चन्ति देविषभाम् वत्सितेषाम् वृक्षे जन्मयमानः इदम् सुमे जलितराजिकिद्धिप्रदीपम् शापन् नद्यो वहन्ति लोपाशः सिंहम् क्रोष्टावराहं क्रोष्टावराहम् निरक्तक्षात् कथात एतदाहमाचिके तन्नृद्धस्य पाकस्तवसो ओ तन्नो अविद्वाङ्कृथा विभो अचोयमर्थन्ते मघवन् क्षेम्याधोः एवाहिमान्तपसम् वर्धयन्ति दिवश्चिन्मेर्हत उत्तराधोः गुरुसहस्रादीशामि साकमशत्रुम् हिमाचनिता जान एवाहि मान्तपसम् यज्ञरुग्रम् कर्मन् कर्म नृषा नृतदेवाः वधे नृत्रम् वज्रेण मन्दसारोपौ रजम् महिलादाशुषे एवम् देवास आयन् परशोम्रविभ्रंभराः पृच्छन्तो अभिविधिरायन् निसुध्वा अन्धतो वक्षराः सुयत्राकृटमनुदग्दहन्ति शशः क्षुरम् प्रत्यन्द्रञ्जकाराद्रिम् लोके रव्यभेदवारात् गृहन्तम् जि गृहते रन्धया निपयद्भत्सोर्ण इत्थावरुद्धः परिपदन्न सिंहःश्चिन्महिरस्तरिष्यावाङ्गोधा तस्मा अयथम् गर्षदे तत् तेभ्यो गोधा अयथम् गर्षदे तद्ये ब्रह्मणः प्रतिपीयम् जन्नैः सिम उक्ष्णो अवसृष्टाम् अजन्ति स्वयम्बलानि एते शमीभिः सुषमे शमी अभूवन्ये हिन्द्रिरे तन् अस्तोम उक्तैः नृद्बतन्नुपनो माहि वाजाविश्रवो रधिषे नाम वीरः वनेन ना वायोऽन्यथायिताकंशतिर्वां स्तोमो पुरणावजीगः यस्येदिन्द्रः पुरुदिनेषु होता नृणान्नर्योर्तमः क्षपावान् प्रते ए अस्या उष प्रापरस्यातौ स्या आमृतमस्य नृणाम् अनुत्रिषोकः शतमा वहन्द्रन् उत्से नरथो यो असत्सवान् हस्ते मद इन्द्रवन्द्यो अभूर्दुरोगिरो अभ्यो उग्रो विधा आव कर्द्वाहो अर्वागुपमामनीषा आ त्वाशक्या उपमम् राधो अन्नैः ुद्धिम्नमिन्द्रत्वावतो नृङ्कया आधियाकरसे कन्न आगम्य मित्रो न सत्य उरुगाय वृत्या अन्ये समस्य यत प्रेरयसूरो अर्थम् न भारङ्गे अस्य कामम् जनिधा इवन् गिरस्तयेते हेतुविजात पूर्वैर्नर मात्रे नु ते सुमिते इन्द्रपूर्वीर्द्यौर्मज्मना आपृथिवी काव्येनायते कृतवन्तः सुता सस्वात्मन् भवन्तु पीतधे मधूनि आमद्धो अस्मा असि तन्नमत्रमिन्द्रायपूर्णम् स हि सत्यराधाः सभा आवृथे परिमन्ना पृथिव्या अभिकृत्वा नर्यः पौंस्यैश्च या आ जा आस्मै ययन्दे सख्याय पूर्वीः आस्मारतन्न पृतरासु तिष्ठयम् भद्रया आसु भक्त्या चोदया आसे प्रदे एभत्रा ब्रह्मणे कातुले एत्तपो अच्छापनसोरप्रयुक्ते महेम् मित्रस्य वरुणस्य धासिम् कृसुज्रयसेरीरथासु भक्तिम् अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीशन्तः अभयाश्चष्टे ए अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्यासु हस्ताः अध्वर्य गोपयिता समुद्रपान्नपा आतम् हविषाः यजध्वम् स वो ओतूर्मिमद्यासुपो ओतम् तस्मै शोभम् मधुमन्तम् सुनोत यो अनिध्नोदीरयत स्वा अन्तर्यम् विप्रा आस ईडते अध्वरेषु अपान अप अन्न पधुमतीरपोदायाद्रो ओपावृे वीर्या आया सो मो मोदते हर्षते युवती चलुवतिर्नमी त्यो अव अच्छा यसिचा ओषधे पुनीता हे वेद्यूने युवत नमंत ए, ए, ए, ए मुश नुषतीरे संजा आनते मनसा सञ्जिकित्रे ध्वर्यवो अशनापश्च देवीः योवो वो अभृताभ्यो अकृणोतु योवो वो, वो, वो, वो अभिशस्ते अभिषस्तेऽरुञ्जत तस्वा इन्द्राजमधुमन्तपोर्लिन्दे एव मादनम् प्रहि नोतनापह प्रास्मैहि नोतमधुमन्तपोर्लिङ्गर्भोयो वः सिन्धगो कृतपृष्ठवेद्यमद्धरेष्वापो रेवतेष्वृताहमम् इन्द्रपानभूर्मिम् प्रहेतय उभे मदरच्युतमौषानन्न भोजाम् परित्रितम् तुम् विचरन्तमुत्सम् आवर्वृततीरथुद्विधारा आगोषु युधो हिनोता आनो अद्भरन्दे एव यज्ञा हिनोत ब्रह्मसनयेतना ऋतस्य योगे विष्यद्भगोधः सृष्टिवरेभ्यमापः आपो ओरेमते च भद्रम् विभृतामृतम् च राजश्च पत्यस्य पत्नी सरस्वते यत्कृणते वयोधात् पति यदापो अदृश्रमायते कृतम् मया अध्वर्यभिर्मनसा संविदाना इन्द्रा आयुसोमम् सुषुतम् भरन्तीः एमा अग्मन् रेवतेर्जीवधन्या अध्वर्यवः सादयता सखायः निबर्हि सोम्या सोपान्नत्राः संविदानास एनाः आग्मन्नाप उशतेर्बर्हिरेदन्यध्वरे असदन्दे वयन्ते अध्वर्यवः सुतेन्द्रा आयसो मम भूवः सुशखा आदो देवानामुपवेतुशंसो विश्वेभिः स्थुरैरवसेजत्रः तेभिर्वयम् सुषखायोपवेमतरन्दो विश्वा आरुहितास्या आम परिचिन्मर्तो द्रविणम् मन्या धृतस्य पचानवचापि भासेत उतस्वेन क्रतुनासंवदेत श्रेयाम् सन्दक्ष्यम् अधा ोषण् वे एतसो अमृता आ नाम भूमा नित्यश्चाकन्यात्सवो राजिस्मा आ उदेवः सविता ददाना भगो ओ वागोऽभिरयमेम रज्यात्सो अस्मै चानुष्ठतैर्तस्या इयम् सा भूया उषसामिवक्षायद्धक्षुमन्त्रसा समायन्न अस्य स्तुतिम् ऋतुर्भिक्षमाणा आनः शग्मा स उपयन्तु वाजा आह अस्ये देशासुमतिः पप्रधाना सन्तः अजरे ए इर ओ ओधि अहारि भूमि रुषसो ओजरन्त नैतापदेनापरो अन्यदस्त्युक्षा सद्या वा पृथिवी बिभर्ति त्वजम् पवित्रम् कुणतस्वधा वाञ्यतीम् सूर्यन्न हरितो वहन्ति स्तेको नक्षामत्ये एति पृथ्वीम् हर्णवातो विहवाति भूम मित्रोऽ यत्र वरुणो अज्यमाहानोऽग्निर्वदेन व्यसृष्टशोकम् शरीर्यत्सूतसत्यो अजमानाव्यगोप पुत्रो यत् यत्पूर्वः पित्रोर्जनिष्टसंयाङ्गौर्जगारयद्धवृच्छान् उदकण्णम् पुत्रमावृतश्यावोधरमादत्तपाजी न कृष्णाजरुषदपिन्मतोधरुतमत्र हि रस्मा अभीपेत सुग्मन्ता आदियसानस्य लक्षणि वरेभिर्वराम् अभिषु प्रसीदतः अस्माकमिन्द्र उभयम् द्विजोषति यत्सौन्द्यस्यान्धसोऽगुपो ओधति ये इन्द्रयासि दिव्यादिलोचनाभिपाथिवानिरजसा पुरुष्टुता ये त्वावहन्ति मुरद्धराम् कुपते सुमन्वन्धुवग्मनाम् अराधसाः तदिन्मे एषम् सत्त्वपुषो बपुष्टरम् पुत्रो यज्जानम् पुत्रो रथे जायापतिम् वहति मग्ना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः तरित्सधस्थमभिचारुदेशयगाभो यच्छासम् वहतु न धेनवाः माता यन्वन्तुर्योषस्य पूर्व्याभिबाणस्य सप्तधाः तुलिज्जनाः प्रभोच्छाचेरे वयुष्पदमेको ओरुद्रेभिर्यादि तुम्बणीः जराभाजेष्वमृतेषु तापनेपरिभ्यस्य ीयमा नवगूढमप्सुप्रमे ए देवानामृतपा उवाच इन्द्रो विद्वाङ्गनक्षते नाहमग्ने अनुशिष्ट आगाम् अक्षेत्रविक्षेत्रविदम् ह्यप्राट्सप्रैति क्षेत्रविदानुशिष्टः एतद्वै भद्रमनुशासनस्योतस्तुतिम्बिन्दत्यन्दसीनाम् अद्ये दुःप्राणे नव मन्दिमाः पे एवृतो अधयन्मातुरूधाः ये मे एनमा प्रजलिमायुवानमहे एणन्मसुस्वना बभूव एतानि भद्राकलशक्रिया मकुरुश्रवणदतो मघानि दान इद्वो मघवानस्सो अस्त्वयम् च सोमो हृदयम् निहर्मि इति सप्तमाष्टके सप्तमोऽध्यायः